श्रीमद्भागवत्महापुराणं दशमस्कन्धम् असत्रिपञ्चाशत्तमोऽध्यायः रुक्मिणीहरन् श्रीशुकुवाच वेदभ्यास सुसन्देशं निशम्य यदुनन्दनः प्रगृह्य पाणिना पाणिं प्रहशन्नितुमब्रवीत् श्रीभगवा तसाह तच्चित्तो निद्रां च न लभीरिषी वेदाहं रुक्मिणा द्वेषान् ममोद्वाहो निवारितः तावानयिष्य उन्मथ्य राजन्यापसदान्मृथे मत्परामनवद्याङ्गी मेधसोऽग्निशिखामिव श्रीशुकुवाच उद्वाहर्षं च विज्ञाय रुक्मिण्यामधिसूचनः रथसंयुजतामाशु दारुकेत्याहसारथिं स चाश्वसव्यसुग्रीवं मेघपुष्पबलाहकैद्युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रतः आरुह्यसन्दनं शौर्ये द्विजमारोप्य तोरणगैः आनर्तादेकरात्रेण विदर्भागमध्वैः राजा स कुण्डिनपतिः पुत्रस्नेहवशं गतः शिशुपालाय स्वां कन्यां दास्यन् कर्माण्यकारयत् पुरं समिष्ट संसिक्तमार्गरथा चतुष्पथं चित्रध्वज पताकाभितोरणैः समुलङ्कृतम् स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः जुष्टं श्रीपुरुषैः श्रीमन्गृहैरगुरूधूपितैः पितृन् देवान् समभ्यर्च विप्रांश्च विधिवन्नृपं भोजयित्वा यथा न्यायं वाचयामास मङ्गलं सुस्नातां सृतिं कन्यां कृतकौतुकमङ्गलाम् अहतां सुखयुग्मेन भूषितां भूषणोत्तमै चक्रोषामर्गुर्मन्त्रये बध्वा रक्षां द्विजोत्तमाः पुरोहितोऽथर्वविध्वै जुभावं ग्रहशान्तये हिरण्यरूप्य वाशां शीतिलांश्च गुणमिश्रितान् प्रादाध्येनुश्च विप्रेभ्यो राजा विधिविदाम्बरः एवं चेतिपतिराजा दमघोषसुताय वै कारयामासमन्त्रज्ञै सर्वमभ्युदयोचितम् मदत्युन्भिर्गजानीकैःसन्दनै हेममालिभिः पत्यस्वशङ्कुलै सैन्यैपरीतकुण्डिनं जयौ तं वै विदर्भाधिपति समभ्येत्याभिपूज्य च निवेशयामास मुदा कल्पितान्यनिवेशने तत्र सार्वोजरासन्धो दन्तवक्त्रो विदूरथ आजग्मुैद्यपक्षीया पौण्डकाद्या सहस्रशः कृष्णरामद्विसो यत्ताः कन्यां चैद्याय साधितुं यद्यागत्य हरेत्कृष्णेवं रामद्यै यदिभिर्वितः यो स्यामसंहतास्तेन इति निश्चित मानसाः आ जग्मृभुभुज सर्वे समग्रबलवाहनाः स्वयैतद्भगवान् रामो विपक्षीय नृपूद्यमम् कृष्णं चैकं गतं भर्तुं कन्यां कलशङ्कितः बलेन महता सार्धं भ्रातृष्णेहपरिप्लुतः त्वरितकुण्डिनं प्रागाद्गजाश्वरपथन् पत्यवे भीष्मकन्यावरारोहाकाङ्क्षन्त्यागमनं भरेः प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा अहो त्रियामान्तरित उज्जवाहो मेऽल्पराधसः नागच्छन्त्यरविन्दाक्षो नाहं वेदं यत्र कारणं सोऽपि नावर्तते द्यापीमस्सन्देशहरोजुजः अपि मिथ्यनमद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितं मत्पाळीग्रहणे नूनं नायातिः कृतोद्यमः दुर्भगाया न मेधातानानुकूलो महेश्वरः देवी वा विमुखा गौरीरुद्राणी गिरिजासती एवं चिन्तयति बाला गोविन्दहितमानसा न मेलियत् कालज्ञानेत्रे चाश्रुकलाकुले एवं बद्ध्वा प्रतीक्षन्त्या गोविन्दागमनं वाम ऊरूर्भुजो नेत्रम् अस्फुरन् प्रियभाषिणः अथ कृष्णा विनिर्दिष्ट स एव द्विजसत्तमः अन्तःपुरश्चरीं देवीं राजपुत्रिं सातं प्रहिष्ठभदनम् अभ्यग्रात्मं गतिं सती आलक्ष्यलक्षणाभिज्ञा सम्पृच्छेश्व स्मिता तस्या आवेदयत्प्राप्तं ससंसयदुनन्दनम् उक्तं च सत्यवचनम् आत्मोपनं नयनं प्रते